गणेशपुराणं क्रीडाखण्डम् अध्यायं 96 क उवाच गिरिजा प्रसन्नं गिरिजाप्रसन्नं प्राहशङ्करं शिवोवाच देवेशसप्तमं वर्षं प्रवृत्तं साम्प्रतं शिशोः क्रियतां व्रतबन्धोऽस्य सुमुहूर्ते महोत्सवाद शिव उवाच सम्यगुक्तं त्वया भद्रे ज्ञात्वा चेदोगतं मम सम्पादयिष्ये साध्वस्य व्रतबन्धं यथाविधि क उवाच युत्युक्त्वा गिरिजां देवः समाकार्यजगौदमं विचार्य सुदिने लग्नं सामग्री समपादयद मण्डपं च सुविस्तीर्ण सर्वा ऋषिगणनी आकार्यपरी पूज्ययिताज्ञा वशोहर यहा्रतबंधम मुदा तयना शिव्योबाक सहस्रेभ्यो नमस्कृ हरोऽपि च सम्पूज्यविधिवत्प्रादान्नानोपायनसञ्चयान् त्रिंशत्त्रिकोटिदेवेभ्यो यक्षेभ्योऽपि तथैव च किन्नरेभ्यश्चारणेभ्यो वाद्यघोषे न दत्यपि गायत्सु किन्नरेष्वासु नर्तकीनाम् गणेषु च सर्वलोकेषु पश्यत्सु सुमहोत्सवम् उपायनानि दानानि ददौ हर्षात् सदा शिवः देवतास्थापनम् कृत्वा भोजयामास चाखिलान् प्रातःकाले बडुं स्नाप्य चौलकर्म समाप्य च चतुर्भिर्ब्राह्मणैः सार्धम् तम्भोज्य संस्थाप्य वै वेदिकाया वेदिकायामन्तरादु धृत्वा पडमनुत्तमं मुहूर्तं साधयामास मुनिभिर्मन्द्रवादिभिः एतस्मिन्नन्तरे दैत्यौ कृतान्तकालसंज्ञकौ गजरूपधरौ मत्तौ मदोदस्राविणौ दृढौ तीक्ष्णदन्तौ दीर्घशुण्डौ गगनस्पर्धिपुष्करौ चित्काराभीषितजनौ सिन्धूरारुणमस्तकौ कम्पदे ययोराशु ययोराशुवसुन्धरा दन्दाकादेन युध्यन्तौ रजसाक्षाध्य सभाद्वारगतं शक्रकारिणम् समुपागतौ दन्तप्रहारैस्तद्गण्ठं भिन्दन्तौ बलवत्तरम् स्रवद्रकृतः पपातोर्व्यां मूर्छितो गजराक्षणाद ऐरावतः पपालाशु मुहूर्तात् प्राप्य परिणौ पृष्ठलग्नौ तौ दन्दाखादैर्निजघ्नदुः ततस्थौ मतमादङ्गौ सभामभ्यं समीयदुः शुण्ठाभ्यां मण्डपं तौ ताडयामासतुस्तदा उक्तस्तु सर्वलोकास्ते श्रुत्वा कोलाहलं तयोः यदो यदो गच्छत स्म तदो देवाः पलायिताः मुनयश्च तयोर्भीत्या दशदिक्षु पलायिताः शिवं तत्र समाचख्युर्विघ्नमेददुपस्थितं गणाऊजुः सेन्द्रासभा मुनियुता विध्वस्ता गजभिदः ततः पलायिता गौरी सखीभिर्गृहमागदा बालस्तदो निरीक्ष्यैतौ दन्दिनौ बलवत्तरौ जगर्जखनवचीघ्रं तयो शुण्ठे दधारह। उभाभ्यामपि हस्ताभ्यां चीत्कारं तौ प्रचक्रदुः भ्रामयित्वा स्फालयत्स एकस्मिन्नपरं गजम् उभौ तौ शदद्धा जातौ पतितौ धरणीतले धरा च कम्बे वृक्षाश्च निपेदुश्चूर्णिता भुवि ततः ता खण्डानि तान्याशु दूरतश्चिक्षिपुर्गणाः बडुं जग्राहजननी शीघ्रमागत्य स्वे कटौ सर्वे पलायिता देवा मुनयो ने दानवौ बालेन निहतौ शीघ्र मृत्युवाच शिवां तदस्ते ततस्ते मिलिता देवा इन्द्राद्या मुनयोऽपि च ऊचो गुणेश्यं ते सर्वे स्वामिन् सर्वं गुणाकर सर्वप्राणहरौ दैत्यौ कापट्याद् गजरूपिणौ निखतौ लीलया देव मायिनौ बलवत्तरौ युक्त्युक्त्वा शक्रमुनयो देवाश्च विविशु सभा उपविष्टेषु सर्वेषु ननृतुश्चाप्सरो गणाः तदो वाद्यान्यवाद्यन्तब्रह्म रुद्रसमीपकः दत्वा परस्परं प्रैषं बबन्धमेखलां शिशोः हो। यज्ञोपवीतमजिनं होमं च समिधामपि कारयाम स विधिवत् सावित्रीवाचनं तदः तदो मादा ददौ भिक्षा मंशुके भूषणानि च उत्तरीयं च रत्नानि मुक्ता फलयुतानि च लड्डूकान् पक्ष्यखाद्यानि त्रिशूलं शशिनं शिवः ददौ नाम चकारास्य बालचन्द्र इति स्फुटं शूलपाणिरिति परम् तदश्चक्रं हरिर्ददौ शोचिष्केशेदिनामास्य चक्रे सम्यग्महात्मनः तदपुरन्धरपूज्य कण्ठे चिन्तामणिं ददौ नाम चिन्तामणिरिदि चक्रे सर्वार्थदं शुभं ददौ तदैव कमलमभ्यर्च्य कमलासनः विधातेदि च नामस्य स्थापयामास संसदि तद सर्वे सुरगणाः समभ्यर्थ्य गुणेश्वरम् नानाविधानि नामानि चक्रुस्वस्वेच्छया सुराः अदिधिक्क्यपश्चात् तं पुपूजतुरादराद दर्शयामास पूर्वरूपं तयोः शुभम् बालचन्द्रं दशभुजं मुकुटेन विराजितम् दिव्याम्बरं दिव्यगन्धम् दिव्याभरणभूषितं सिंहारूढं विराजन्तमुरगोधरबन्धनम् दृष्ट्वेद्धमदिर्ह्रष्ठा लिलिङ्गं स्नेहनिर्भरा रोमाञ्चितशरीरा सा प्रेमगद्गदनिःस्वना विस्मयम् परमम् प्राप्ता श्रवदश्रुजलाविला परमानन्दमग्ना भूत्स्नेहस्तुतपयोधरा तथैव कश्यपो देहभावं तत्याज तत्क्षणाद ऊचतुस्तौ सुदस्नेहाद्वत्सा वां ते वि योगदः कृशदां गमितौ तेभ्यदर्शनात् पुष्टदां गदौ ना वां त्यज सुदेदानीं जनौ त्वच्चरणे रदौ गजानन उवाच प्रदिश्रुतं मया मादर्दास्ये दर्शनमेकदा तदिदानीं मया दत्तं न शोकं कर्तुमर्हसि सर्वान्तर्यामिणो वियोगो न कदाचन क उवाच एवन्तु वदतोरेवं पर्वदि समुपागदा उवाच परमप्रीता दृष्ट्वा स्नेहं तयो शिशौ अदिते देहि मे गृहीतं चिरकालधः नायं तव सुधः शुभ्रु सम्यक् पश्य शुचिस्मिते सा पश्यत् पुनरे वैनं स्वसैव स्तनयं विभुम् अधिरुवाच त्वमेव गौरि पश्याश्युतनयं मे पुरस्थितं सा पश्यत्पुनरे वैनं गुणेशं तनयं स्वकम् अदितिस्तां ममेत्याह पार्वतीतां ममेति च एवं विवदमाने दुःप्राहुर्देवाः सुविस्मिताः अनादिनिधनो देवसृष्टिस्थित्यन्दुकारकः अनन्दरूपो नन्दश्रीरनेकशक्तिसंयुतः कस्या अयम् भवेत्पुत्र उभे भ्रान्ते स्यमायया ेवोचदुः यस्या अयं भवेत्पुत्रस्तस्याहस्ते प्रदीयतां क उवाच तदो देवा निरीक्ष्य इनं नानारूपिणमीश्वरं कश्चिदाह विधादायं कश्चिद्विष्णुं च दुर्भुजं कश्चित् त्रिलोचनं प्राह वरुणं विस्मिता ऊचुस्ते निश्चयोस्माभिर्विधातुं नैव शक्यते भवदीभ्यां विवेकेन ग्राहयोऽयं परमः पुमान् तदो गौरी गृहाणाशुतं विभुं तनयं स्वकं स्तनपानं ददौ स्नेहा दधिर्नीरसा भवद चेत बालको कथं मा चे बालकोम सियाम यादी अहंभ्रांद सकद परन यनय कश्यपैन पुपूजुस्ते गुणेशरम नमस्कृत्याभ्यज्ञाप्य युस्व स्व निवेशनम भवानी च गृहं यादा पुत्रमादाय हर्षिता तदसमागता सर्वे प्रागमन्निलयान् स्वकान् इति श्रीगणेशपुराणे क्रीडाखण्डे गौर्यादिति विवादो नाम षण्णवतितमोऽध्यायः ओम्